अग्नि अग्निसूक्तम् श्रीगुरुभ्यो नमः हरि ओ अग्निसप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् अग्निरोदसेविचरत्समञ्जग्नग्निर्नारिम् वीरकोक्षिं पुरन्धिम् अग्निरप्नसमिदस्तु भद्राग्निर्मही रोदसी आविवेश अग्निरेकं चोदयत्समस्वग्निर्वृत्राणि दयते पुरुढी अग्निर्हत्यं जरत कर्म मा वाग्निरध्यो निरुन्हज अरूथम् अग्निरात्रिं घर्म उरुष्यदन्त अग्निर्निमिषे मेधम् प्रजया आश्रियत समम् अग्निर्दाद्रविणं वीरपे एष अग्निरसिं य सहस्रा आं शनोती अग्निर्जविहव्यं तथा नाग्नेर्धामा आनि विवृता पुरुत्रा अग्निमुक्तैर्षयो वीफयन्ते अग्निं दरो यामलिबाधिता सह अग्निं वयो ॐ तरीक्षे पतन आतोग्ने सहस्रापरियाति गोनाम अग्निं विष उलिते मानसि या अग्निं मानसो नहु सो विजाताः अग्निर्गान्धर्वी पथ्या आं तस्याग्निर्गभ्यो ओचिर्भित आनिषत्ताम् अग्नये ब्रह्म ऋभुवन्ततस्फुरग्निम् महामवोचा मा सुहृत्तिम् अग्ने पावजरितारं जभेष्ठाग्नेर् महेन्द्रमिणमा यजस्व ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ आयुष्यसुक्तम् यो ब्रह्मा वरुणदुजहारप्राणये शिरकृत्तिवासा आ पिनाके इसालो देवसन आयुर्दधातु तस्मै ज्योमि हविषाभृतेन विभ्राजमान शरीरस्य मध्वाद्रोचमानो घर्मरुचिर्य आगा स मृत्युपासानपुरं नुद्यघोराणि आयुषे लो मृतमत्तु देवः ब्रह्मज्योतिर्ब्रह्मपत्नीषु गर्भं जमातुधात्पुरुषरूपं जायन्तं सुवर्णरभग्रहमर्कमर्चं तमायुसे वर्धयावो घृतेन लक्ष्मी श्रियं लक्ष्मीमोबलामम्बिकां गाम् षष्ठीं च यामिन्द्रसेने एतिदाहुः तां विद्यां ब्रह्मयोनिगं स्वरूपां निहायुषे तर्पयामो घृतेन सहस्त्रसो विश्वरूपा विरूपाः ससुनव सपतय सयुच्या युध्या आयुषेणो घृतमिदं जुषन्तां देव्या गणा बहुरूपा आह पुराणा आयुश्चिदोडा प्रमत्नन्तु वीरान् तेभ्यो जुहोमि बहुधा घृतेन माडा प्रजागम्भ्रीरिशो मोतवीरान् कपुरस्ताद्य इदं बभूव यतो बभूव भुवनस्य गोपाः यमप्येति भुवनगंसा आं पराये सनोहविर्गतमिहायुषे एतदेवः वसूनरुद्रानादित्यान्मरुतोऽथसाध्यान् ऋभूञ्ज्यान् गन्धर्वागश्च पितृगश्च विश्वान् भृगुन्सर्पागस्ताङ्गिरसोऽथ सर्वान् मृतगं भूत्वा स्वायुस्यां महयामस्तस्त्वं विष्णो त्वं नो अन्तर्मस्मं सर्व यच्छ सहन्त प्रते धारा मधुश्च्युत उत्तम दुःप्रते अप्च्यताम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ आ नो भद्राः सूक्तम् आ नो ओ भद्रा विश्वतो दधाप्सो अपरीतास उद्भिदः देवानो यथा सदमिद वृथे असन्नप्रा आयुरक्षितारो ओ, ओ दिवे दिवे देवाना आं भद्रासुमतिर्जुयतां देवाना आं रातिरभिनोलिवर्ततां देवाना आं सख्यमुपसेदिमा वयं देवा नायो न आयो प्रतिरन्तु जीवसे ए तान् पूर्वयान्विदा आहोमहे वयं भगम् मित्रमदितिं दक्षमश्रीधम् अर्यमणं तरुणं सोममश्विना सरस्वतीना शुभगामयस्करत् तन्नो वातो ॐ मयोभुवा आतु तन्माता पृथिवी तत्पिता द्यौः तद्ग्रावा आर्णसोमसुतो ॐ मयोभुवस्तदश्विना श्रुतं धिष्णया युवं तमिषा आन्नं जगस्तस्थु स्वस्पतिं देयं सरस्वतं स्वस्तये स्वस्ति न इन्द्रो वृद्धस्रवा स्वस्ति न पूषा विश्ववेदा स्वस्ति न स्थाक्षो अरिष्ट नेमि स्वस्ति नो बृह॒स्पतिर्दधातु पिशदस्वामरुत प्रस्निमातर् शुभं जावा आ नो विद्यते एषु जग्मयः अग्निजिह्वामनवसुरचक्षसो विश्वे नो देवा अवसागमण्डिह भद्रं कर्णेऽभिशृणुजामदेवाः भद्रं पश्ये माचभिर्ययत्राः तिरैरङ्गै एतुष्ठुवागंसस्तनूभिः यसेम देवहितै यदायुः ततमिन्दुशरदो अन्तिदेवायत्रा आ नश्चक्राजरसं तनूना पुत्रासो यत्र पितरो भवन्ति मानो ओ मध्यारे एरिसतायुर्गन्तो अदिते ज्योरुद्युतिरन्तरिक्षम् अधिति अदितिर्माता स पिता पुत्रः विश्वे एदेवा अदिते पञ्च जना अदिते जातमदेतजनित्वम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु